लोकाननुचरन् सर्वानागमत्ताम् सभां नृपा नारदः सुमहातेजा ऋषिभिः सहितस्तदा पारिजातेन राजेन्द्र पर्वतेन च धीमता सुमुखेन च सौम्येन देवः शिरमितद्युतिः सभास्थान् पाण्डवान् द्रष्टुम् प्रीयमाणो मनो जवः तमागतमृषिम् दृष्ट्वा नारदम् सर्वधर्म वेत् सहसा पाण्डव श्रेष्ठः अभ्यवादयत प्रीत्या विनयावनतस्तदा तदर्हमासनम् तस्मै सम्प्रदाय यथाविधि गां चैव च सम्प्रदायार्घ्यमेव च अर्चयामास सर्वकामैश्च धर्म तुतोष च यथावच्च पूजाम् प्राप्य युधिष्ठिरात् सोर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारदः धर्मकामार्थसंयुक्तम् पप्रच्छेदम् युधिष्ठिरम् नारद उवाच कल्पन्ते धर्मे च मनः सुखानि चानुभूयन्ते मनश्च न विहन्यते कच्चिदाचरत पूर्व पिताम वर्तसे वृत्तिम्क्षुद्र धर्मा सहितां कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा उभौ वापीतिसारेण न कामेन प्रबाधसे कच्चिदर्थं च धर्मं च कामं च जयताम्बरा विभज्यकाले कालज्ञः सदा वरदसेवसे कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथा नघ बलाबलं तथा सम्यक् चतुर्दश परीक्षसे कच्चिदात्मानमन्वीक्ष्य परांश्च जयतां वर तथा सन्धाय कर्माणि अष्टौ भारतसेवसे कच्चि प्रकृतयः सप्त न लुप्ता भरतर्षभा अढ्यास्तथा व्यसनिनः सर्वशः